श्रीहरये नमः अथ चतुर्थोऽध्यायः श्रीशुक उवाच अतः कथम् उत्पत्त्यैव अभिव्यज्यमान भगवल्लक्षणं सां योपसम वैराग्यैश्वर्यमहाविभूतिभिः अनुधिनं येतमान अनुभावं प्रकृतय प्रजा ब्राह्मणो देवताश्च अवनितलस्तमवनायादितरां जगृदुः तस्य हा वायित्तं वरीयसा मृगश्लोकेन च ओजसा फलेन श्रिया यशसा वीर्यसौर्याभ्यां च पिता ऋषभ इतीदं नाम सखर तस्य हि इन्द्रः भगवान् वर्षेण ववर्ष भगवान् ऋषभदेवो योगेश्वरप्रहश्च आत्मयोगा मायया स्व अजनाभं नामाभ्यवर्षेत् नाभिस्तु यथाभिलक्षितम् सुब्रजस्त्वम् अवरुद्याति प्रमोदपरविह्वले गद्गताक्षरया गत गिरस्वैरम् गृहीतनरलोकं सधर्मं भगवन्तं पुराणपुरुषं मायाविलसितमधिर्वत्सदा तेति सानुरागम् उपलालयन् परां निर्वृतिमुभगदः वितितानुराघं मा पौरप्रकृते जनभधो राजा नाभिरात्मजं समयसेतुरक्षायाम् अभीक्षिश्च ब्राह्मणीशो उपनिधाय सहमेरुदेव्या प्रसन्ननिपुणेन तपसा समाधियोगेन नरनारायणाख्यम् भगवन्तं वासुदेवम् उपासीनकालेन तन्महिमानम् अवाप यस्यः पाण्डवे यः श्लोकावुदाहरन्ति को नु तत्कर्मराजर्षेर्नाभे अन्वाचरेत् पुमान् अपत्यतामघात्यस्य हरिशुद्धेन कर्मणा ब्रह्मण्योऽन्यकुथा नाभेर्भिप्रा मङ्गलपूजिता यस्य बर्हिषीयज्ञेशं दर्शयामासु रोजसा अतः भवान् वृषभदेवस्वर्षं कर्मक्षेत्रम् अनुमन्यमान प्रदर्शितगुरुकुलवासो लब्धवरै गुरुभिरज्ञातो गृहमेधिनां धर्माननुशीक्षमाणो जयन्त्याम् इन्द्ररधत्तायाम् उपयलक्षणं कर्म समाम्नाय आम्नातमभियुज्यन् आत्मजानाम् आत्मसमानानां सतं जनयामास येषां खलु महायोगी भरतो ज्येष्ठश्रेष्ठगुण आसीत्ये नेतं वर्षं भारतमिति व्यभति सन्ति तमनुकुशावर्तयिलावर्तो ब्रह्मावर्तो मलयकेतोर्भद्रसेन इन्द्रस्पृग् विदर्पकीकट इति नवनवते प्रधानाः कविर्हरिरन्तरिक्षप्रभुत्त पिप्पलायन आविर्होत्रोत ध्रुमीलश्चमसकरभाजनः इति भागवतधर्मदर्शनवमः भागवतास्तेषां सुचरितं भगवन् भगवन्महिमोपभृंहितं वसुधेवनारतसंवादम् उपसमायनं उपरिष्ठाद्वर्णयिक्ष्यामः यवीयां स एका सीधेर्जायन्ते यो पितुरा देशकरा महासालीना महे श्रोद्रिया यज्ञशीला कर्म विशुद्धा ब्राह्मणा बभूवुः भगवान् ऋषभसंज्ञ आत्मतत् स्वयम् नित्यं निवृत्तानर्थपरम्पर केवलानन्नुधानुभ ईश्वर विपरीतकर्मण्या रभमाणः कालेनानुगतम् धर्मम् आचरणेन उपशिक्ष्यन् अधत्पितां सम धर्मार्तयस्य प्रजानन्धामृतावराधेन कृशेषु लोकं नियमय यद्यच्चीष्णै यद्यच्चीष्ण्याचरितं अनुवर्तते लोकः यत् विश्वविदितं सकलधर्मं ब्राह्मं गुह्यं ब्राह्मणैर्दर्शितमार्गेण सामाधिभिरुपायैर्जनताम् अनुससासं। द्रव्यदेशकालवयश्रद्धर्द्विग् विविधोद्देशोपचिथै सर्वैरपि क्रतुभिर्यथोपदेशं शतकृत्व याज भगवद्दर्शभेण पुरुषो वाञ्छत्य विद्यमानमिवात्मनोन् यस्मात् कथञ्चन किमपि कर्हि चित् अपेक्षते भर्तरि अनुसवनम् विजृम्भित स्नेहादिशयम् अन्तरेण स कदाचित्टमानो भगवान् वृषभो ब्रह्मा गतो ब्रह्मर्षि प्रवरसभायां प्रजानां निसावयन्तीनाम् आत्मजानवहितात्मनप्रश्रय प्रणय भर सुयन्त्रितानपि उपशिषयन् इति कोवाच इति श्रीमद्भगवते महापुराणे पञ्चमस्कन्ते चतुर्दोऽध्यायः सर्व गोपी का जीवनस्मण गोविंद गो सद्गुरु सद्गुमाज के जय